मुद्गलपुराणम् खण्डं 6 विकटचरितम् अध्यायम् ट्वेण्टि सेवन् ब्रह्मकमण्डलुस्ततीर्थवर्णनम् श्रीगणेशाय नमः भृश्युण्ड्य उवाच गणेशतीर्थमध्येतु गणेशसंश्रुतो भवत वामे सिद्धे समाख्यातम् तीर्थं स्नानेन सिद्धिदं दक्षिणे बुद्धितीर्थं तु स्नानेन बुद्धिदायकं लक्षतीर्थं ततः सिद्धे समीपे ध्यानदायकं बुद्धेर्लाभस्ततीर्थं तु समीपे लाभदं परं लाभस्य सन्निधाने तु मयूरस्य प्रकीर्तितं स्नानेन विविधो मोहो नश्येत्तत्र विनिश्चितं लक्षस्य मौषकं तीर्थं समीपे स्नानमात्रतः अहम्भावहरं प्रोक्तं नराणां देवसतमः ततश्च मौद्गलं तीर्थं तदो गार्समदं स्मृदं ततश्च शुक्रतीर्थं तु दत्तात्रे तत्परम् अन्यानि गाणपत्यानां तीर्थानि विविधानि तु प्रवक्ष्यामि समासेन विचक्षणाः धनुर्दशकमानं तु णेशम् परिकीर्तितम् तदर्थम् सिद्धिबुद्ध्योश्चान्येषाम् धनुःप्रमाणकम् तेषाम् शिष्यादिकानां तु यवमात्रम् प्रकीर्तितम् मयूराकुपुरोभागे तीर्थम् ब्रह्मप्रियस्य च प्रमोदस्य तथा मोदस्य योगप्रियकस्य च गणानां तीर्थमुख्यानि तत्रैवं संस्थितान्यपि एतद्गणेशतीर्थस्ततीर्थानि कथितानि तु दक्षिणोत्तरगान्येव तीर्थानि, तीर्थानि द्विधूंषि वक्रतुण्डादिपानां चाष्ठानां देवेन्द्रसप्तमः अन्ये नानावताराश्च गणेशस्य महात्मनः तेषां तत्रैव तीर्थानि गाणपथ्यप्रदानि तु तत्र क्रमम् प्रवक्ष्यामि पूर्वभागे गणेश्वराः संस्थगास्ता शुणुध्व देशसुंडो महोदरो गजानन बलाश्चेंबो विघ्नेशो बाचंद्रकेशूर्पकर्ण से चिंतामणिनायक ये द्वादश मुख्या पश्चिम भागे कथयामी सबोदरोध विकटो विघ्नेशो धूम्रवर्णक महागणपति तथा सिद्धि विनायक विघ्नहारश्च दुण्ढीशोलक्ष्य आशाप्रपूरकः वरदो देवदेवेश मदोत्कट इति श्रुतः एते द्वादशविघ्नेशाः संस्थितास्तीर्थगाः पराः अन्येनानावताराश्चाङ्गुष्टपर्वसमाश्रिताः तीर्थं मया समाख्यातं गणेशं गणपप्रियं एतादृश्यानि चान्यानि कथयितुं न शक्यते तथापि प्रब्रवीम्येव भवतां भक्तियन्द्रितः ऋषितीर्थाश्च दुर्ध्याश्च तीर्थं काष्णं च शौक्लकम् चतुर्ध्यां स्नानमात्रेण चतुर्विधफलं भवेद तदशम्याश्च मन्तारस्य तदस्तीर्थमुत्तमं दूर्वायाधनुषां पञ्चप्रमाणेन व्यवस्थितं तेषु स्नानेन देवेशा ईप्सितं सर्वमाप्नुयाद संस्तमुत्तर तीरे यत्तीर्थं तद्भैरवप्रियं नग्नभैरव देवेश स्थितस्तत्र बभूवः नग्नभैरवतीर्थे तु यस्नायाद्भावसंयुधः यादनासम्भवं दुःखं प्राप्नुयान्ननरोत्तमः तत्पुरोद्वारकातीर्थं तत्र स्नानेन मोक्षदं तदो योग्याश्रितं तीर्थं मधुरा संश्रितं तदः स्नानेन मुक्दिदं तत्र नराणामीप्सितं भवेद संस्तमुत्तरतीरे च प्रभासं रोगनाशनं तत्र स्नानेन देवे शद्यो वै सुखदं भवेद तदः पुष्करतीर्थं च स्नानतः पापनाशकं तदः तीर्थं स्नानेन चतुर्विंशदिकानां च ततो विष्णो कलात्मनां तीर्थानि पापसङ्खानाम् दाहकानि स्थितान्यपि तद उत्तरतीरस्थस्वयं विष्णुप्रतिष्ठितः यतेषु स्नानमात्रेण स लभेद्वैष्णवं पदं भृगुतीर्थं ततः पश्चात्पुलहस्य प्रकीर्तितं तद समाख्यादं समाख्यादन्तीर्थं पापहरं परम् तदो मुनि च तीर्थानि संस्थितान्यपि तत्रमानं मानं प्रवक्ष्यामि शृणुध्वं ह्येकचेतसः वैष्णवानि च तीर्थानि स्नानतो देवसत्तमाहा विष्णो लोकप्रधान्येव ज्ञातव्यानि विशेषतः येषां देवोपदेवानां ऋषीणां तीर्थकानि तु तत्तल्लोकप्रधान्येव स्नानेन स्नानकारिणां शुक्लगत्यालये तेषां मुक्तिं गच्छन्ति मानवाः मयूरक्षेत्रमाहात्म्यात् स्नानेनैव कमण्डलोः एकैकं धनुराख्यादम् मानं मुख्यात्मनां परं तीर्थं सर्वत्र माहात्म्ये मयूरे कथितं मया अन्यमुनिगणादीनां तीर्थानि कथितानि च अङ्गुष्टपर्वमात्राणि ज्ञातव्यानि विशेषतः आदौ सृष्टिसमारम्भे स्रष्टा देवालय किल मुनयः तपस्ते पुस्वसिद्धये मयूरे तपसा सिद्धा स्वस्थाने सङ्गदा बभुः कलया मुख्यभावेन मयूरेशं समाययुः अधो वक्तुमशक्तं तत्तेषां स्थानादिकं परम् मानं तीर्थं च तद्वच्च ज्ञातव्यं सूक्ष्मचक्षुषा अवन्तीतीर्थमाख्यादं दक्षिणे च तडे स्थितं तीर्थं सोमेश्वरस्य च तथा तथातीर्थं तीर्थमेव यमस्य च नैरृतस्य तथातीर्थम् हंसतीर्थम् ततः परम् भैरवाणाम् महातीर्थम् रुद्राणाम् तीर्थकानि तु रामेश्वरस्य तीर्थम् तु मल्लिकार्जुनकस्य च अधुनोत्तरतीर्थस्य सीमाम्भः कथयाम्यहम् विष्णु अवतारतीर्थेभ्योऽप्सरस्तीर्थम् प्रकीर्तितं देवतीर्थं ततः पश्चात्तदो गन्धर्वतीर्थकम् इन्द्रस्याग्नेस्तदस्तीर्थे विष्णुतीर्थं तदन्तकम् दक्षिणतीरकं तीर्थमात्रेः पापहरम् परम् एक तीर्थानि गणपात्मनां तदशम्भोर्महातीर्थं सीमासंस्थं महेश्वराः गणेशात् पूर्वभागे तीर्थानि कथितानि वै अध तीर्थानि कथयाम्यहम् संक्षेपेण सुरश्रेष्ठाशृणुध्वम् विधिपूर्वकम् व्यासतीर्थात्परं तीर्थम् काश्याश्चैव ततःपरम् मायापुर्यात्समाख्यादम् ततो विरचकं मदम् कृत्तिवस्त्र्यम्बकेश्च शिवानाम् च ततः परं च तीर्थानि संस्थितानि च तदः तीर्थं पापहरं परं ततो द्वादशमासानां तीर्थानि संस्थितानि च मलमासस्य तीर्थं तु गणेशं नात्र संशयः देवो गणेश्वरस्तेन कृतश्च तपसा पुरा मलमासे गणेशस्य पूजनं सेवनं मदं सर्वार्थः साधकं तच्च भविष्यदि महेश्वराः ततः शिवस्य शैवानि तीर्थानि संस्थितानि च तीर्थं ततः पश्चात्तदः सरस्वतीकृतम् विष्णु काञ्यास्तदस्तीर्थं कौमार्याश्च ततःपरं वाराह्यास्तीर्थमुख्यं तु तद ऐन्द्र्याः प्रकीर्तितं वैष्णव्याश्च तदस्तीर्थं माघेश्वर्यास्ततः परं ब्राह्म्यास्तीर्थं ततो रक्तदन्तायाश्च प्रकीर्तितम् तदोऽवशिष्टतीर्थं तु पौलस्त्यं तीर्थमुत्तमं तदश्चाङ्गिरसस्तीर्थं कण्वतीर्थं ततःपरं जैमिनेस्तीर्थमुख्यं च तदो मेधातिथे स्मृतं तीर्थं तु मान्धादुश्च तदःपरं ययादे नकोशस्यैव ध्रुवस्य च ततःपरं भरद्वाजस्य तीर्थं तु जमदग्नेतपरं गौतमस्य ततस्तीर्थं पाण्डवैश्च ततः कृतं ततो वरुणतीर्थं तु मरुतश्च ततःपरं पितृतीर्थं ततः प्रोक्तं गयातीर्थं ततःपरम् तत्रैव संस्थिता देवी गया गदाधरादिभिः उभयोस्थिरयोसेवि नराणां ब्रह्मदायिनी तत्र पिण्डप्रदानेन ब्रह्मभूताः पितामहाः पितरश्च तथान्ये ऋणैः सर्वैर्विनिर्मुक्तः स वै गच्छेत्ततःपरं ततः परं तु तीर्थानि विविधानि च कथयितुं न शक्यानि मया केनापि निश्चितम् भैरवाणां तदस्तीर्थं स्कन्दस्य च ततःपरम् नागेशस्य ततः प्रोक्तं रुद्राणां च ततः परं वसूनां स्थानसंयुक्तं तीर्थं प्रत्येकमेव च पार्वत्याश्च ततः प्रोक्तं ततो धनपकस्य च साध्यानां तीर्थमुख्यं तु ततः शक्तेश्च सीमाभूतम् महेशानास्तडे दक्षिणगे परम् अधुनोत्तरगेतीरे व्यासतीर्थान् महेश्वराः तीर्थानि संस्थितान्येव तान्यकं प्रवदामि व्यासतीर्थात् स्वयं ब्रह्मा प्रयागसंयुधस्थितः तस्य तीर्थं महत्तत्र सर्व पापप्रणाशनं कर्मतीर्थं ततःपश्चा तदोऽग्नेस्तीर्थमुत्तमं द्वादशादित्यकानां च तीर्थानि च ततः परं शिव काञ्च्यास्तदस्तीर्थं ततः सूर्यस्य तीर्थकं पूर्णस्य पूर्णभावाक्यं सर्वरोगनिकृन्दनम् सदोग्रहाणां तीर्थानि दिक्पालाश्चावशेषिताः तेषां तीर्थानि देवेश देवानां यक्षरक्षसा महाकाल्यास्तदस्तीर्थं नारसिंह्यास्ततः परं शाकम्भर्यास्ततः प्रोक्तं चामुण्डायास्ततः परं त्रिपुरायास्तदस्तीर्थम् ततस्तीर्थानि देवपाः महामायायुधानां वै शक्रीणां विविधानि चतुष्षष्टिमितानां च योगिनीनां मदानि वै तीर्थानि योगदान्येव परदेहजकानि च ततश्च नैध्रुवं तीर्थं देवलस्य ततः परं मार्कण्डेयस्य तीर्थं तु भैरवाणां ततः परं कालभैरवतीर्थं तु तद क्रदुमुखाः परं तेषां प्रजापतीनां तु तीर्थानि संस्थितानि तु ततोरैवतकं तीर्थं ततो परं जटभरततीर्थं योगसिद्धिप्रदायकम् ओङ्कारगणनाथस्य ततस्तीर्थं प्रकीर्तितं विद्याधराणां तीर्थं च चा तदः पैशाचमोचनं ततो धर्मस्य तीर्थं त्वश्विनोऽस्तीर्थं ततः परं नागानां शेषकादीनां तदस्तीर्थ शतानि च तदो गवामहातीर्थं सनकादेस्ततः परं चतुर्दशमनूनां च तीर्थानि च ततःपरं महाशक्रेस्ततस्तीर्थमसि तस्य ततःपरं दक्षादीनां च तीर्थानि ततो मातृगणास्मृताः तेषां तीर्थानि देवेशा षष्टिर्दक्षस्य कन्यकाः तासां तीर्थानि तत्पश्चाद्गन्धर्वाणां ततः परं गुह्यकानां तु तीर्थानि ततो विभीषणस्य च रावणस्य तदस्तीर्थं श्वेदकेदोस्ततः परम् उद्दालकस्य तीर्थं तु रक्षसां च तदस्मृतम् अष्टावक्रस्य तीर्थं तु वैश्वदेवं ततः तीर्थानि चैव तेषां तु ततो दक्षस्य पुत्री सन्तानकादीनां तीर्थानि विविधानि च मारीचम उद्गलादीनां विप्राणां च ततः परं तीर्थानि पाण्डवेशस्य तीर्थं दुर्वासः परं दत्तस्य तीर्थकं प्रोक्तं निग्धाखस्य ततःपरं हनुमदस्तदस्तीर्थं सुग्रीवस्य ततःपरं तीर्थं जाम्बवदः प्रोक्तं बलेस्तीर्थं ततःपरम् ततश्च वालकिल्यानां गालवस्य ततःपरं विश्वामित्रस्य तीर्थं तु तीर्थं त्रिशिरसस्ततः मृगण्डस्य तदस्तीर्थं दधीचेश्च ततःपरं किन्नराणां तदस्तीर्थं साध्यानां च ततःपरं कामधेनुमुखीनां च गवां तीर्थं ततःपरम् अशितस्य ततस्तीर्थमिक्ष्वाकोश्च गार्ग्याणां च तदस्तीर्थं माण्डूकानां ततःपरं दौम्यस्य चैव वाल्मीकेस्तदस्तीर्थं च जैमिनेः वा चक्नवेस्तदस्तीर्थं तदो मङ्गणकस्य च प्रह्लादस्य तदस्तीर्थं दधीचेश्च ततःपरम् उपमन्योस्तदस्तीर्थं वैशम्पायनकस्य च जाजले पर्वतस्यैव तैलस्य च ततःपरं लोमसस्य विभाण्डस्य ऋष्यशृङ्गस्य तत्परम् तदो मुनिगणानां च तीर्थानि विविधानि तु अश्वधां नस्तदस्तीर्थं कृपस्य च ततः तदो वराहतीर्थं तु भूम्यास्तीर्थं ततः परं प्रकृतेः पुरुषस्यैका महामाया प्रकीर्तिता समाख्यादम् सीमा संस्थं महेश्वराः एतानि तीर्थमुख्यानि कथितानि समासदः स्वस्वमुख्यदिनेष्वेव सेवनीयानि मानवैः मयूरवासिभिः स्वस्वसिद्धिदानि भवन्तिः मयूरे पारतीर्थानि तेषां मानं वदाम्यहम् अङ्गुष्टपर्वमात्राणि तीर्थानि तीर्थसेविनां यवमात्रस्वरूपेण संस्थितास्तीर्थसेविनः त्रैलोकेयानि तीर्थानि नानाभेद धरणि च मयूरेतानि सर्वाणि संस्थितानि विशेषतः अणुमात्रस्वरूपैस्तु ज्ञातव्यानि मनीषिभिः मयूरे यानि तीर्थानि न गच्छन्ति तु कुत्रचित् स्वस्वस्थानं समाश्रित्य सेवन्ते द्विरदाननं गाणेशक्षेत्रभूतेषु देवास्तीर्थसमन्विताः संस्थितास्ते तु गच्छन्ति मयूरे दर्शनार्थिनः ये तत् सङ्क्षेपदप्रोक्तं तीर्थानां तु चरित्रकं श्रवणात्पठनात् नृभ्यो भुक्तिमुक्तिप्रदं भवेद् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते ब्रह्मकमण्डलुस्ततीर्थवर्णनं नाम ंशतितमोध्याय ओं